श्रीमन महाभारतं श्रीम्मत आदिपर्ण आस्तीकपर्ण सौपर्ने सप्तव्याय सौ सौतिरुवाच संप्रहृष्टास्ततो नागा जलधारा प्लुता सुपर्णे नो्यमस्ते जग्मस्तन्वीपशु वै तवीप विहितं विश्वर्मण तत्र ते लवणं घोरं ददृशुः पूर्वमागताः सुवर्णसहिताः सर्पाः काननञ्च मनोरमम् सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितं विचित्रफलपुष्पाभिर्वनराजिभिरावृतं भवनैरावृतं रम्यैस्तथा पद्माकरैरपि प्रसन्नसलिलैश्चापि हृदैर्दिव्यैर्विभूषितं दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः वायुविक्षिप्तकुसुमैस्तथान्यैरपि पादपैः किरद्भिरिव तत्रस्थान्नागान् पुष्पाम्बुवृष्टिभिः मनःसंहर्षजन्दिव्यं गन्धर्वाप्सरसां प्रियं मत्तभ्रमरसङ्घुष्टं मनोज्ञाकृतिदर्शनं रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् तत्तेवनं समासाद्य विजह्नः पन्नगास्तदा अभ्रुवंश्च पतगेश्वरं वहास्मानपरं द्वीपं सुरम्यं विमलोदकम् त्वं हि देशान् बहून् रम्यान् व्रजन् खेचर सविचिन्त्या ब्रवीत्पक्षी मातरं विनतां तदा किङ्कारणम् मया मातः कर्तव्यम् सर्पभाषितम् विनतोवाच धासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तमा पणम् वितथमास्थाय सर्पैरुपधिना कृतम् तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः उवाच वचनम् सर्पांस्तेन दुःखेन दुःखितः किमाहृत्य विदित्वा वा किं वा दास्याद्वो विप्रमुच्येयं तथ्यं वदत सौतिरुवाच श्रुत्वा सर्पा आहारामृतमोजसा ततो दास्याद्विप्रमोक्षो भविता तव खेचर इति श्रीमन्महाभारते आदिपर्वि आस्तीकपर्वि सौ पत्तविशोध्याय